गरुडपुराणम् प्रेतकाण्डं धर्मकाण्डम् अध्यायम् 32 टु तार्क्ष्य उवाच कथमुत्पद्यते जन्तुर्भूतग्रामे चतुर्विधे त्वचारक्तं तथा मांसम् मेधो मज्जास्तिजीवितम् पादौ पाणि तथा गुह्यं जिह्वाकेश्च नखा शिरः सन्धिमार्गश्च बहुशो रेखानैकविधास्तथा कामक्रोधो भयं लज्जा मनो हर्षसुखसुखं चित्रितं चित्रितञ्चापि नानाजालेन वेष्टितम् इन्द्रजालमिदं मन्ये संसारे सारसागरे कर्ताकोत्रहृषिकेश संसारे दुःखसङ्कुले श्रीविष्णुरुवाच कथयामि परं गोप्यं कोशस्यास्य विनिर्णयं यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रज्यते साधु पृष्टं त्वया लोके सदयं जीवकारणं वैनते यशृणुष्व त्वमेकाग्रकृतमानसः ऋदुकाले च नारीणां वर्ज्यं धिनच दुष्टयं यतस्तस्मिन् ब्रह्म हत्याम् पुरा वृत्रसमुद्धिताम् ब्रह्मा शक्रात् समुत्थाय चतुर्धांशेन दत्तवान् तावन्नालोक्यते वक्त्रम् पापं यावद्वपुस्थितम् प्रथमेखनि चण्डाली द्वितीये ब्रह्मकादिनी तृतीये रचकी ज्ञेया चतुर्देहनिशुद्ध्यति सप्ताहात् पितृदेवानां भवेद्योग्या चनेप्ताह्ये यो गर्भस्तूतिर्मलिंुच निषेकसम पित्रोयादृचिकनादर्भस नात्र संशय युग्माु पुत्र जायते स्त्रि युग्माु रात्रिषु पूर्वसप्तममुत्सृज्य तस्माद्युग्मा सु संविशेद षोडशर्तुर्निशास्त्रीणां सामान्या समुदाहृदः या चतुर्दशमीरात्रिर्गर्भस्तिष्ठति तत्र चेद् गुणभाग्यनिधिपुत्रस्तत्र जायेत धार्मिकः सा तत्र सामान्यैर्न लभ्येदखगाधिप प्रायश्च सम्भवत्यत्र गर्भस्त्वष्ठाकमभ्यदः पञ्चमेहनि नारीणाम् कार्यमाधुर्यभोजनम् कडुक्षारम् च तीक्ष्णम् च त्यज्यमुष्णम् दूरदः तत्क्षेत्रमोषधीपात्रं बीजष्टाप्यामृदायितं तस्मिन्नुक्त्वा नरस्वामी सम्यग्भलमवाप्नुयाद तस्याश्चैव तपोवर्ज्यशीतलं केवलं चरेद ताम्बूलपुष्पश्रीखण्डै धर्ममादाय मनसि सुतल्पं संविशेत् पुमान् निषेकसमये यादृग्नरचित्तविकल्पना तादृक्स्वभावसम्भूतिर्जन्तुर्विशदि कुक्षिकगा शुक्रशोनिधसंयोगे पिण्डोत्पत्तिः प्रजायते वर्धते जठरे जन्तुस्तारापधिरिवाम्बरे चैतन्यम् बीजरूपं हि शुक्रे नित्यम् व्यवस्थितम् कामश्चित्तञ्च शुक्रञ्च यदा ह्येकत्वमाप्नुयुः तदा द्रावमवाप्नोति योषा गर्भाशये नरः रक्ताधिक्ये नारी शुक्राधिक्ये भवे पुमान् शुक्रशोणितयोः साम्ये गर्भा षण्डत्वमाप्नुयुः अहोरात्रेण कलिलम् बुद्बुदम् पञ्चभेर्दिनैः चतुर्दशे भवेन्मांसं मिश्रधाधुसमन्वितं कनम् मांसञ्च पंचवशतिबल पुष्टिच जाये तथा दुसूर्णे पंचतवदसदुस मज्जास्तीत शांगु्य दुर्धक कर्ण च नासी गे वक्षो जान्मा पंचमे कण्ठरन्ध्रोदरं षष्ठे गुह्यादिर्मासि सप्तमे अङ्गप्रत्यङ्गसम्पूर्णो गर्भो मासैरधाष्टभिः अष्टमे चलते जीवो धात्री गर्भे पुनः पुनः नवमे मासि सम्प्राप्ते गर्भस्थौ जौ दृढं भवेद् चिकित्सा जायते तस्य गर्भवासपरीक्षये नारीवाधनरोवाधनपुंस्त्वं वाभिजायते शक्तित्रयं विशालाक्षं षाट्कौशिकसमायुधं पञ्चेन्द्रियसमोपेदं दश नाडीविभूषितं दशप्राणगुणपेदं योजानादिशयोगविध मज्जास्ति शुक्रमांसानिरोमरक्तम्बलं तथा षाट्कौशिकमिदं पिण्डं स्याज्जन्तोः पाञ्चभौतिकं नवमे दशमे मासि जायदे पाञ्चभौतिकः सुधिवादै समाकृष्टपीडया विह्वलीकृतः पुष्टो नाड्या सुषुम्णाया योषिद्गर्भस्ति दरन् शुतिर्वाह विर्भोद यूदिपीडितबद्धस्नायुंधन मूलभूद मे प्रोक्ता सप्तनाड्यचास्ति्यणी वात्र पंचम ये पंचगुणा प्रोक्ता मैं भूमे खगेशुणापस्था तशणुकाश्यप लालामूत्रम तथा शुक्रमरक्त पंचम आपपंचगुणा प्रोक्ता जा दव्यान क्षुदा तृषा तथा निद्रा आलस्यं कांज तेज पञ्चगुणं प्रोक्तं तार्क्ष्य सर्वत्र योगिभिः रागद्वेषौ तथा लज्जाभयं मोहस्तथैव च इत्येतत् कथितं तार्क्ष्यवायुजं गुणपञ्चकम् आकुंचनं धावनं च लङ्खनं च प्रसारणं निरोधपञ्चमः वायो पञ्चगुणा स्मृताः कोशश्चिन्ता च गाम्भीर्यं श्रवणं सत्यसङ्क्रमः आकाशस्य गुणाः पञ्चज्ञा दव्यास्तार्क्ष्य यत्नदः श्रोत्रं त्वचक्षुषी जिह्वाना स बुद्धीन्द्रियाणि च पाणिपादौ गुदम् प्राक् कर्मेन्द्रियाणि च इडा चैव सुषुम्णा तृतीयः गान्धारी गजिह्वाजपूषा चैव यशा तथा अलम्बुषा कुहुश्चैव शङ्घिनी दशमी स्मृदा पिण्डमध्ये स्थिदाह्येदा प्रधाना दशनाडयः प्राणापानौ समानश्च उदानो व्यान एव च नागकूर्मश्च कृकरो देवदत्तो धनञ्जयः इत्येदेवायभप्रोक्तादशदेहेषु सुस्थिताः केवलं भुक्तमन्नञ्च पुष्टिदं सर्वदेहिनां नयते प्राणदो वायुशरीरे सर्वसन्धिषु आकारो भुक्तमात्रस्तु वायुना क्रियते द्विधा सप्रविश्य गुहे सम्यक् पृथगन्नं पृथग् ऊर्ध्वमग्नेर्जलं कृत्वा तदन्नञ्च जलोपरि अग्नेश्चाधस्वयं प्राणस्तमग्निं च धमेश्चनैः वायुना धम्यमानोऽग्नि पृथक् किट्टं पृथग्रस्सं मलैर्द्वादशभिक्किट्टं भिन्नं देहात् पृथग् भवेद कर्णाक्षिणासिका जिह्वादन्तनाभिवपुर्गुदं नखामलाश्रयाख्ये देविन्मोत्रञ्चत्यनन्तकं शुक्रशोणिदसं योगादे दा कौशिकं स्मृतं रोम्णां कोट्यस्तथा तिस्रोऽप्यर्थकोटिसमन्विताः द्वात्रिंशद्दशना प्रोक्ता सामान्याद्विदनासुधा सप्तलक्षाणि केशास्यूर्नका प्रोक्तास्तु विंशतिः मांसम् फलसहस्रैकं सामान्याद्देहसंस्थितम् प्रकृतम् फलशतं तार्ष्यम् बुद्धमेव पुरातनैः फलानि दशमे फलानि दशमेधश्चत्वजा चैव तत्समा फलद्वादशकम् मज्जा महारक्तम् फलत्रयम् शुक्रम् द्विकुडवम् ज्ञेयम् शोणितम् कुडवम् स्मृतम् श्लेष्माणश्च एवम् पिण्डसमाख्यातो वैभवं सम्प्रचक्ष्महे सुखं दुःखम् भयं क्षेमम् कर्मणैव हि प्राप्यते चोर्ध्वपादं चोर्ध्वपादम् गर्भाद्वायुप्रकर्षदि तलेतु करयोर्न्यस्य वर्धते जानुपार्श्वयोः चो चोपरिन्यस्तौ जान्वो रातकराङ्गुली जानुपृष्टे तथा नेत्रे जानुमध्ये च जा नासिका एवं वृद्धिं क्रमाद्यादिजन्तुस्त्रीगर्भसंस्थितः काठिन्यमस्ति न्यायान्ति बुक्वदपीतेन जीवति नाडीवाप्यायनी नामनाभ्याम् तत्र निबध्यते स्त्रीणाम् तथान्द्रसुषिरे स निबद्धप्रजायते क्रामन्दिभु कृतपीदानि स्त्रीणाम् गर्भोदरे तथा तैराप्यायिददेहोसौजन् दुर्वृद्धिमुपैति च स्मृत्यस्तत्र प्रयान्त्यस्य बह्व संसारभूदयः तदो ततो निर्वेदमायादिपीड्यमान इतस्ततः पुनर्नैवं करिष्यामि भुक्तमात्र इहोदराद तदा तथा यदिष्यामि गर्भं नाप्नोम्यहं यथा इति सञ्चिन्तयञ्जीवो स्मृत्वा जन्मशतानि वै यानि पूर्वानुभूतानि देवभूतात्मजानि वै जन्धुपरि तदकालक्रमाजन्धुपरिवर्त्यत्वधोमुखः नवमे दशमे वापिमासि मासि सञ्जायदे तदः निष्क्रम्यमाणो वादेन प्राजापत्येन पीड्यदे निष्क्रमते जविलपंस्तदा दुःखनिपीडितः निष्क्रामंश्चोदरान्मूर्च्छा मस्सख्यां प्रतिपद्ये प्राप्नोति चेतनां चासौ वायुस्पर्श सुखान्वितः तदस्तं वैष्णवीमाया समास्कन्धतिमोहिनी तया विमोहितात्मासौ ज्ञानभ्रंश मवाप्नुदे भ्रष्टज्ञानम् बालभावे ततो जन्तुप्रपद्यते तद कौमारकावस्थां यौवनम् वृद्धतामपि पुनश्च तद्धुवन्मरणं जन्म प्राप्नोति मानवः तद संसारचक्रेऽस्मिन् भ्राम्यदे खडयन्त्रवद कदाचित् स्वर्गमाप्नोति कदाचिन्निरयम् नरः स्वर्गम् च निरयम् चैव स्वकर्मफलमश्नुते कदाचिद्भुक्तकर्मा च भुवम् स्वल्पेन गच्छति स्वर्लोके नरगे चैव प्राये द्विजोत्तमाः नरकेषु मखद्दुःखमे दद्यत्स्वर्गवासिनः दृक्ष्यतेनात्रमो दन्ते पात्यमानास्तु नारकैः स्वर्गेऽपि दुःखमदुलम्व्यधारोहणकालतः प्रभृत्यहं पदिष्यामीत्येतन्मनसि वृदधे नारकांश्चैव सम्प्रेक्ष्य महद्दुःखमवाप्यते एवं गदिमहं गन्धेत्यहर्निश्यमनिर्वृदः गर्भवासे महद्दुःखं जायमानस्य योनिजम् जातस्य बालभावेऽपि वृद्धत्वे दुःखमेव च कामेर्ष्याक्रोधसम्बन्धाद्यौवनेऽपि च दुःसहम् दुःस्वप्नम् या वृद्धता च मरणे दुःखमुत्कर्णम् कृष्यमाणश्च याम्यैः स नरकेऽपि च यात्यधः पुनश्च गर्भाज्जन्मस्यान्मरणम् दुष्करम् यत्तथा एवम् संसारचक्रेऽस्मिन् जन्तवो खडयन्द्रवद भ्राम्यन्ते प्राक्तनाैर्बद्धैर्बद्धा विध्यन्ति चास्यकृद नास्ति पक्षिन् सुखम् किञ्चित् क्षेत्रे दुःखशताकुले विनता सुत मोक्षाय यदितव्यम् तदो नरैः यदत्ते सर्वमाख्यातम् यथा गर्भस्य संस्थितिः कथयामि क्रमप्रश्नम् पृष्टं वा वर्तते स्पृहा गरुड उवाच मध्ये कृतमः प्रश्नद्वयस्याप्तं मयोत्तरम् प्रश्नस्यावितृतीयस्य उत्तरं च विधीयताम् श्रीकृष्ण उवाच म्रियमाणस्य किं कृत्यमिति पृष्टवानसि शृणु तत्रोत्तरं तूखदं कथयामि समासदः आसन्नमरणं ज्ञात्वा पुरुषं स्नापयेत्तदः ओमूत्रगोमय सुमृत्तीर्थोदकुशोदकैः वाससि परिधार्या तदौ शुचिनीशुभे दर्भाण्यादौ समास्तीर्य दक्षिणाग्रान्विकीर्य च तिलान् गोमयलिप्तायां भूमौ तत्र निवेशयेद प्रागुदक्षिरसंवाभिमुखे स्वर्णं विनिः शालग्रामशिला तत्र तुलसी विद्यया सन्निधौ सर्पिर्दीपं प्रज्वालयेत् पुनः नमो भगवदे वासुदेवायै धिजपस्तद्धा आदौ दुःप्रणवम् कृत्वा पूजादाने तदस्मृते समभ्यर्च्य हृषिकेशम् पुष्पधूपादिभिस्तदः प्रणिपत प्रणिपातैस्तभैपुण्यायैर्ध्यानयोगेन पूजयेद् दत्त्वादानं च विप्रेभ्यो दीनानादिभ्य एव पुत्रे मित्रे कलत्रे चक्षत्र धान्यधनादिषु निवर्तयेन्ममत्वं च विष्णोः पादौ हृदि स्मरन् उच्चायपुरुषसूक्तं च यदि श्रेष्ठापदस्तदा पुत्राभ्या प्रपढेयुस्ते म्रियमाणे निजे जने एतत् ते सर्वमाख्यातं कृत्यं मृत्या उपस्थिते फलमप्यस्य कृष्णस्य समासात्ते वदाम्यहं स्नानेन ना शुचिदा प्राप्तिरभा वित्र्या हृदिस्ततः ततो विष्णो स्मृतिस्तस्य ज्ञानास्सर्वफलप्रदा दर्बभून् दर्भतूलीनये स्वर्गमादुरं तु न संशयः तिलैर्दर्भैश्च निः क्षिप्तैः स्नानं क्रतुमयं भवेद् ब्रह्माविष्णुश्च रुद्रश्च श्रीर्सुदाशस्तथैव च मण्डले चोपतिष्ठन्ति तस्मात् कुर्वेदमण्डलं प्रागु दग्द्वा प्रागुदग्वा कृतेनेह शिरसालोकमुत्तमं प्रचते यदि पापस्याल्पत्वं पुंसो भवेत् खग पञ्चरत्ने मुखे मुक्ते जीवे प्ररोहति तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग गा। पञ्चप्रवहणान्येव भवाब्धौ मज्जतां नृणां विष्णुरेकादशी गीता तुलसी विप्रधेनवः असारे दुर्गसंसारे षट्पदी भक्तिदायिनी नमो भगवदेवासुदेवाये दिजवन्नरः रिजपन्नरः ओङ्कारपूर्वं सायुज्यं प्राप्नुयान्नात्र संशयः पूजयाभिजमल्लोकप्राप्तिराराद्दिवं व्रजेद बन्धाभावे ममत्वे तुज्ञानं पुरुषसूक्तदः यस्य यस्याधिकत्वम् तु साधनेष्वेषु काश्यप तत्तद्फलस्याप्याधिकम् भवतीत्यवधारय दातव्यानि यथा चक्रिया प्रीतोऽसौ सर्वदा भवेद एतत् ते सर्वमाख्यातम् मया ब्रह्माण्डे ये गुणाः पादालभूतरालोकास्तधान्ये द्वीपसागराः आदित्यादिग्रहा सर्वे पिण्डमध्ये व्यवस्थिताः पादाद्धस्तुतलं ज्ञेयं पादोर्ध्वं वितलं तदा जानुभ्यां सुतलं विद्धि सग्धिदेश्ये महातलं तथा तलातलञ्चोरौ गुह्यदेशे रसतलम् पादालम् कडिः संस्थन्तु भूर्लोगम लक्षयेद्बुधः भूर्लोकम् नाभिमध्ये दु भुवर्लोकम् तदूर्ध्वः स्वर्गलोकम् हृदये विद्याखण्डदेशे महस्तद्धा जनलोकं वक्त्रदेशे तपोलोकं ललाटके सत्यलोकम् महारन्ध्रे भुवनानि चतुर्दश त्रिकोणे संस्थितो मेरुरथकोणे च मन्दरः दक्षिणे चैव कैलासो वामभागे हिमाचलः निषधश्चोर्ध्वभागे जदक्षिणे गंधमादनः मलयो वामरेखायं सप्तैते कुलपर्वताः अस्तिस्थाने स्थितो जम्भूशागो मज्जासु संस्थितः पुष्यद्वीपस्थितो मांसे क्रौञ्चद्वीपश्चिरास्थितः त्वचायां शाल्मलिद्वीपो प्लक्ष प्लक्षः रोम्णां च सञ्चये नखस्थपुष्करद्वीपस्सागरस्तदनन्तरं क्षारोदश्च तथा मूत्रे क्षारे क्षिरोदसागरः सुरोदधिश्च श्लेष्मस्थः मज्जायां कृतसागरः रसोदधिं रसे विद्याश्रोणिदे दधिसागरं स्वादुलम् लम्बिकास्थाने लं। गर्भोदम् शुक्रसंस्थितं नादचक्रे स्थितसूर्यो बिन्दुचक्रे च चन्द्रमाः लोचनस्थकुजोज्ञेयो हृदये च बुधस्मृतः विष्णुस्थाने गुरुं विद्याचुक्रे शुक्रो व्यवस्थितः नाभिस्थाने स्थितो मन्दो मुखे राहुस्थितः सदा पायुस्थाने स्थितके दुःशरीरे ग्रहमण्डलम् विभक्तञ्च समाख्यातमापादतलमस्तकम् उत्पन्ना येहि हि संसारे म्रियन्ते तेन संशयः बुभुक्षा च दृशा रौद्रा दाहोद्भूता च मूर्च्छना यत्र पीडास्त्विमा रौद्रास्ता वै पृच्छिगदं शजाः विनाश पूर्णकाले च जायते सर्वदेहिनाम् अग्रे अग्रे हि धावन्दियमलोकगदस्य वै तप्तवालुगमध्येन तब प्रज्वलद्वह्निमध्यदः केशग्राहैः समाक्रान्तानीयन्दे यमकिङ्गरैः पापिष्ठास्त्वधमास्तार्क्ष्यदयाधर्मविवर्जिताः यमलोकेव सन्ध्येते कुट्यां जन्म न विद्यते दे। एवं संजायते तार्क्ष्यमर्त्यजन्तुस्वकर्मभिः उत्पन्ना ये हि संसारे म्रियन्ते तेन संशयः आयुः कर्म च विद्या निधनमेव च पञ्चयितानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः कर्मणा जायते जन्तुकर्मणैव प्रलीयते सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते अधोमुखं चोर्ध्वपादं गर्भद्वायुः प्रहर्षदि जन्मदो वैष्णवी माया सम्मोहयदि सत्वरं स्वकर्मकृतसम्बन्धो जन्तुर्जन्मप्रपद्यते सुकृदादुत्तमो भोगभोग्यवान् सुकले भवेद् यथा यथा दुष्कृतं तत्कुलिघीने प्रजायते दरिद्रो व्याधिदो मूर्खपापगृदुःखभाजनम् अधः परं किमर्थं ते कथयामि खगेश्वर इति श्रीगारूडे महापुराणे उत्तरकाण्डे द्वितीयधर्मद्रुपेद श्रीकृष्णगरुडसंवादे जन्दोत्पत्ति तत् धात्वादि विभागभुवनादि विभागवर्णनं नाम द्वात्रिंशोऽध्यायः ॐ